श्रीमन्महाभारतम् आदिपर्वणि आस्तिकपर्वणि शेषवृत्तकथने षट्त्रिंशत्तमो अध्यायः शौनक उवाच आख्याताभुजगास्तातवीर्यवन्तो दुरासदाः शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरं सौतिरुवाच तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः उग्रं तपः समातस्थे वायुभक्षो यतव्रतः गन्धमादनमासाद्य वद्याञ्च गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च एकान्तशीलो नियतः सततम् विजितेन्द्रियः तप्यमानम् तपो घोरम् तम् ददर्श पितामहः संशुष्कमाम् सत्वत्स्नायुम् पितामहः किमिदम् कुरुषे शेषप्रजानाम् स्वस्ति वै कुरु त्वम् हि तीव्रेण तपसा प्रजास्तापयसे न घ ब्रूहि कामम् च मे शेषयस्ते हृदि शेष उवाच सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः सहतैर्नोत्सहे वस्तुम् तद्भवाननुमन्यताम् अभ्यसूयन्ति सततम् परस्परममित्रवत् ततोहं तप आतिष्ठम् नैतान् पश्येयमित्युत न सर्पयन्ति ससुताम् सततं विनताम् च ते अस्माकम् चापरो भ्राता वैनतेयोन्तरिक्षकः तञ्च द्विषन्ति सततम् स चापि बलवत्तरः वरप्रदानात् सपितुः कश्यपश्य महात्मनः सोऽहं तपः समास्थाय कलेवरम् कथम् मे प्रेत्यभावेऽपि न तैः स्यात् सह सङ्गमः तमेवम्वादिनम् शेषम् पितामह उवाचः जानामि शेष सर्वेषाम् भ्रातॄणाम् ते विचेष्टितम् मातुश्चाप्यपराधाद्वै भ्रातॄणाम् ते महद्भयम् कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम भ्रातॄणाम् तव सर्वेषाम् न कर्तुमर्हसि वृणीष्व च वरं मत्तः शेषयत्तेऽभिकाङ्क्षितम् दास्यामि प्रीतिर्मे परमात्वयी दिष्ट्या बुद्धिश्च ते धर्मे निविष्टापन्नगोत्तम भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिर शेष उवाच एष एव वरो देवकाङ्क्षितो मेऽपितामह धर्मे मे रमताम् बुद्धिः शमे तपसि ब्रह्मोवाच प्रीतोऽस्म्यनेन ते शेषदमेन च शमेन च त्वयात्विदम् वचः कार्यम् मन्नियोगात्प्रजाहितम् इमाम् महीम् शैलवनोपपन्दाम् ससागरग्रामविहारपत्तनाम् यथावत् सङ्गृह्य तिष्ठस्व शेष उवाच यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः तथा महीं धारयितास्मि निश्चलां प्रयच्छतां मे शिरसि प्रजापते ब्रह्मोवाच अघोमहीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति इमां धराम् धारयता त्वयाहि मे महत्प्रियं शेषकृतं भविष्यति सौतिरुवाच तथैव कृत्वा विवरम् प्रविश्य प्रभुर्भुवो भुजगवराग्रजः स्थितः बिभर्तिदेवीम् शिरसा महीमिमाम् समुद्रनेमिं परिगृह्य सर्वतः ब्रह्मोवाच शेषोऽसि नागोत्तमधर्मदेवो धारयसेयदेकः धारयसे यदेकः अनन्तभोगैः परिगृह्य सर्वाम् वा सौतिरुवाच अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान् धारयन् वसुधामेकः शासनाद्ब्रह्मणो विभुः सुपर्णं च सहायं वै भगवानमरोत्तमः प्रादादनन्ताय तदा वै न तेयं पितामहः अनन्ते च वासुकिः महाबलः अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः वा महाभारते श्रीम्मते आदिपर्वि आसती कथने शेषवृत्तकथने षट्रिशोध्याय